सत्येनोक्ताभिता भूमिः सौर्येणोक्ताभिताद्योः कृतेनादित्या सोमेना सो सोमोऽधिश्रुतः सोमेनादित्या बलिनः सोमेन पृथिवेमही अथो नक्षत्राणामेषामुपस्थेनो महाहीतः सोमम् मन्यज पपिबान्यत्सम्पिम् सन्तोषाधिम् सोमैयम् ब्रह्माणो विदुर्नतस्याधिपार्थिवः यत्त्वा सोमप्रपिबन्ति तथात्यायस पुनाः वायुः सोमस्य रक्षिता समानाम् मासाकृतिः आच्छब्देधानेर्गुपितोपाते सोमरक्षितः णामिच्छण्वन्ति सिनते अश्नादि पार्थेव चित्तेरा उप बर्हाणम् चक्षुराभ्यञ्जानम् यौर्भो मे कोशा आसेत्युदया सूर्यापतिम् वेभ्यः आसेदनुदेहेनाराशंसेन्यो जाने सूर्यायाः भद्रमिद्वासोऽगाधा येति सोमा आसन्त्वयः कुलेरम् छन्दवशः सूर्याया अश्विना बलाग्निरासेत्पुलो गावः सोमा वधोजुराभवदश्विनास्तामुभावदा सूर्याय यत्पद्येशम् सन्धे मनसा सपिता ददात् मनास्यानासेत् गोरासेत् शुक्रावानड्वास्ता यदयात्सूर्यापतिम् रक्सामाभ्यामपिहेतौ गावो देशामनाभेताम् श्रोत्रेतचक्रयास्ताम् दे दिविपन्थाश्चराचरः शुचेयेत चक्रयात्काभ्यानाक्षाहसः नामनस्मयम् सूर्यालोहत्प्रजाते पतिम् सूर्याया वहतु प्रागाः स निदाय मावासृजत् मभासो हन्यन्ते गावः फलको देशौ व्यह्यते ैकम् चक्रम् वामासेत्पदेष्टायतस्ततोः यदयातम् शुभस्त्वदेव रेयम् सूर्यामुप विश्वेदेवानुतद्वाम जानन्पुत्रः पितरामवृणेतपोषा रेशे चक्रे सूर्ये ब्रह्माणा ऋतुथा वेदुः अथैकञ्चक्रयद्गुहा तदद्धातय अजिद्वेदुः हर्यमणै यदामहे सुबन्धम् पातिवेदनम् उर्वारुकमेव बन्धानात्प्रेतोमुञ्जामिनामुदाः प्रेतोमुञ्जामिनामुदः प्रेतो सुबद्धा मामुदस्करम् यथेयमिङ्गमेढस्व पुत्रासु भगासाते रक्त्वा मुञ्जामिवरोणस्य कृतस्य यो नो सुकृतस्य लोकेऽस्तेः अस्तु सहसम् भलायै भगस्पेतोनायतु हस्तगृह्याश्विना त्वा प्रवाहताम् पृथेन गृहाम् गच्छ गृहपत्े यथा सो वशिने त्वम् विरथमावादासे यः प्रियम् गृहे हारः पक्त्याय चागृहे येनापत्या तन्वा आम् संस्कृशस्वाथ जन्विर्विदधावहैवस्तम् मावियोऽष्टम् विश्वश्नुतम् क्रीडन्तो पुत्रैर्नत्रभिर्मोदयमानो स्वस्थौ पूर्वापरञ्चरतो मायहैतौ शिशो क्रीडन्तौ परि यातोऽनुवम् विश्वान्यो भुवाना विचष्टरुतोरण्य विदध जायसे नवाः नवा नवो भवसि जायमानाह्नाङ्गेतुकृषसा मे श्यग्रम् भागम् देवेभ्य विदधास्यायन्वजम् नमस्तेरसे दीर्घमायोः परा देहिशामूल्यम् ब्रह्मभ्य कृत्यैषा पद्वते भोत्वा छायावेश देपतिम् नैव लोहितम् भावति कृत्वा शक्तिर्व्यज्यते हे सन् च अस्या ज्ञातयः पतिर्बन्धेशो बध्यते अष्ठेनातनोर्भावतिर्श ते पापया मुया प्रतिर्यद्वद्भो सस्वमङ्गमभ्यो मसाधिविकर्तानम् सूर्याया पश्य रूपाणि तानि ब्रह्मोदशम्भते पृष्ठमे तत्कटोकमपाष्टमद्विषपन्नैतदत्तमे सूर्याय्यो ब्रह्मा वेदसैद्वाधोऽयमर्हति सैत्तत्स्यानम् हारति ब्रह्मावासः सुमङ्गलम् कायश्चित्यञ अध्येत्येन कायानरिष्यति युवम्भकम् सम्भारतम् समृद्धमुतम् वदन् तावतोऽद्येयेषु ब्रह्माणस्पते पते महस्येरोचे चारो सम्भगो भवतु वाचमेता विभेदशासनपरोकमाचेमङ्गा वप्रदया वर्धयाथ भैयतेरुश्रिया सोमावर्चसा विश्वे देवाक्रम्यवोमनांसे इमङ्गा वप्रजया संवे सा धायम् अनुरक्षरार्जवः सन्तु पन्था नो यभिः सखा नोयन्ते नोऽवदेयम् सम्भगेन समार्यम्ना सन्धाता सवर्चसा यच्चवर्चा अक्षयशुशुरायाम् च यदाहेतम् यद्गोष्वश्विनावर्चस्ते नेमाम् वर्चसावतम् येन महानज्ञानघनामश्वि येन वासुरा येनाक्षाभ्यसञ्चन्त तेनेमाम् वच्चसावतम् यो अनिर्भोदीतय दप्स्वा आन्तर्यम् विप्रासयीडते अध्वरेषु अपान्नपान्वधोमतेरपोदायाभिजिन्दोः वा वृथे दीर्या वा इदमहम् वशन्तङ्गाभन्त नो दोषिमपोहामि च भद्रारजनः समुदजामि आश्चेयद्ब्राह्मणा स्नपानेर्हरन्द्वेरग्नेऽनुदान्त्वापाः हर्यम् न अग्निम् पर्यये दुपोषन् प्रदेक्षन्ते शुचोरोधेवरश्च सन्ते हिरण्मो सन्तापश्यम् मेधर्भावतुषयुगस्य तर्म सन्तापः शतपाकृता भवन्तु समुपत्या तन््रा आम् संस्प्रेषस्य खेन सख्ये युगस्य शतर्क्रतो अपालामिन् रात्रि आशासानासौ मनसम् प्रजाम् सौभाग्यम् रयम् पत्युरनो रता भोद्दासन्नत्य स्वामृतायकम् यथा सिन्धर्न्रेनाम् साम्राज्यम् सुषवेषा हेवात्वम् सम्राज्ञेऽधिपत्युरस्तम् भवेत्य सम्राज्ञेऽधिष्वचोरेषु सम्राज्ञृतते वृषो अनान्तः सम्राज्ञे सम्राज्ञश्वाः यार्गम् तन्नवयन्याश्च तत् निलेया देवेदन्ताभितोदन्ता तास्तादशसंव्यायङ्गायुष्म चेदम्बरे ध्ववासाः एवम् रोदन्त्यनायन्त्यद्धान् देर्घामनुप्रसेदिन्देध्यनदाः मम् पितृभ्याय इदम् च मे रेमयः पतिभ्य जनये परिष्पजे स्यानम् ध्रुमम् प्रजाये धारयामि चेष्मानम् देव्या प्रेथिव्यादुपस्थे अपाधिष्ठानुमाद्याः सुवर्चाः दीर्घन्तायुः स्वपिताग्रेणोतो वेनाग्निरस्या भोम्या ेन गृह्णामि ते हस्तम् मा व्यासिष्ठामया सहप्रगः च धनेन च देवस्ते सविताहस्तम् गृह्णातु सोमोराजा सुप्रादशम् कृणोतु अग्निः भवतोः अर्यमासविता पुरम् धर्मह्यम् त्वागारः पत्याय देवाः भगस्ते हस्तमग्रहेत् सविताहस्तमग्रहेत् पत्ने त्वमासि धर्माणाहङ्ग्रह दृष्टव ममेदमस्तपास्यामह्यम् त्वाधातृहस्तमेः मया पत्या प्रजावति भड़े सञ्जे लेपशरदशतम् ष्ठा वा सोऽधाच्छुभेकम् बृहस्पते कवीनाम् तेनेमाम् नारेण सविताभगश्च शोर्यामेव परे धत्ताम् प्राजया निन्नाग्नेद्या वा पृथिवे माधिस्वाहा मित्रावरोटाभगो अश्विनोभा ब्रह्म सोम इमाम् नारेम् राजया वर्धयन्तो बृहत्पदिप्रथमसूर्यायाः श्रीविषे केशामकल्पयत् तेनेमामस्मिनाथेकम्पत्ये संशोभयामसि इदम् तद्धोपै यतवश्चायोषा जायाम् जिज्ञासे मनः चलन्ति रामन्वर्त्यश्च के भर्णवग्मये कैमान्वित्तान्वित च पाशाहान् अहम् यस्याः विमये रूपमस्या वेदादित्तश्यम् मनासः पुरायम् अस्येयमद्भिमनसोदयमुच्च मना स्वयम् श्रोवरुणस्य वत्ता विवरोणस्य पाशाद्येनत्वा बध्नासविदा सुषेवाः पुरर्लोकम् सुगमत्रबन्थान् कृणामिदभ्यम् सावत्नीवधो बुद्ध्यच्छमुप रक्षाधेमान् नारेम् सुकृते दधात धाता वे कश्चित्पतेमस्यैवेदभगो राजा पुरयेतु प्रजानन् भगश्च दक्ष चतुरप्न् भगश्च दक्षतत्वान् विष्पालादि पृष्टाविशमध्ययोऽनुबद्धान् सानास्तु सुमङ्गली सुखिम् सुकम् वहतुम् विश्वलोपम्भिरन्यवर्णम् सुहृतम् सुचक्रम् आरोहसूर्ये अमृतस्य लोकम् स्यानम् पदेभ्यो वहातुम् गृहत्वम् अभ्रादृग्भ्येम् वरुणापशुग्भ्येम् गृहस्पते इन्द्रापदिग्भ्येम् पुत्रदेमास्मभ्यम् सविदर्वः मारिम् षष्टम् कुमार्या आम् स्थूले देवगृहते पथे शालाया देव्याद्वारम् सोऽनन्द्रन्मोऽवधो पथम् ब्रह्मापारयुज्यताम् ब्रह्मपूर्वम् ब्रह्मान्तरतोपद्यतो ब्रह्मा सगताः व्याधाम् देवपुराम् प्रपद्य शिवास्योनापातिलोके विरा च तुभ्यमग्नेपर्यवहन् सूर्याम् वहतु नासः सपदिभ्यो चायाम् दाग्ने प्रजया सह पुनः तत्तेमग्निरजादायुषा धावच्च सा दीर्घायोरस्यायपदैवातिशरदः शतम् सोमस्य जायाप्य समङ्गम् धर्वस्य पारपतेः कृतेयो अग्न्यश्च पतिस्तुलीयश्च मनश्शराः सोमा ऋद्गम् धर्वाय हरीञ्च पुत्रांश्चा दादग्यर्मह्यमथो इमा आमगन्सु आशीर्वादिनेव सोऽश्विना हृत्सुकामानम् सद अभोदम् गोपा मेधुनाशो भक्षते प्रिया यम्ना दुर्या हरेमहे सामन्दसा नामना सुगम् तेर्थम् सुप्रपाणम् शोभस्तते स्थानम् बतिष्ठातु महिम्हतम् यावोषधयो या यावलाः तास्त्वा वधुप्रजावात्येः रक्षन्तु रक्षसाः एवम् पन्थाम यस्मिन् वेदो नरिष्यत्यन्येखरम् विन्दते वसो इदन्तु मे न शृणुदययाशिरागम्ब देवा मम श्नुतः एकम् धर्वार्थरतश्च तेभेदेषु माहानस्पत्येषु येभे सोनास्ते अस्येवे भावन्तु माहिंसि सर्वहा तु ये वध्वश्छन्द्रम् वाहतम् यक्ष्मायम् द्विजना पुनस्तान्यज्ञयाः देवालयम् द्वि यदागताः मा वेदम् परे पञ्चनाय आसीदम् तिलम्बति सुखेन दुर्गमते दामभद्राम् परादयः सङ्काशया विवहातुम् ब्रह्माण गृहे पर्यानर्थम् निश्वरोप्यदस्य सोऽनम् पदक्षः स्वमिका शिवानारेयमस्तमागन्निरम् धाता लोकमस्यैरे देश कामनर्यमा भगव अश्विनोभा प्रजातादिप्राजया वर्धयन्तो आत्मन्वत्युर्वदानारेयमागन्तस्यान्नवपदीजमस्याम् सा प्रजाञ्जलयद्भक्षणाभ्या विभ्रहते दे दुःखप्रशभस्य देताः हरेदश्च विराटविष्णोरिवेहसारः सति शिनेवारिप्रजायतान्वयस्य सुमतावसत् बुद्ध भूर्मिः शम्या हन्त्वापो योक्तामुञ्चत मानुशुतौ येन सा अभ्यावशो न मालताम् अघोरचक्षणपादिघ्नेश्यो नमा श्रियमा गृहेभ्यः वेरसोद्देवृकामानन्तये जेमहि सुमनस्य माना अदेज्ञपदिघ्नेहे शिवा पशुभ्यः श्रियमाशुवत्ताः प्रजापदे वे रसोद्देवो ने अग्निम् दार्हपत्यम् सपर्य उत्तिष्ठे दक्षिमिच्छन्ति दमागाहन्तेभो स्वाग्रहाय सोऽन्ये निर्वृते या जगन्धोत्तिष्ठाराते प्रमादमे हरम् स्थाः यदा प्रत्यवसा बलेच्छोर्वमग्निम् सन्मवन्धमाहारास्येनार्यावपस्तरे शिनेवारिप्रजायताम् भगत्य सुमातावासत् यम् वल्बा जन्यस्य अथ जन्मा चोपस्तृणे च न तदारोहसुभ्राजाय कन्या विन्दते पतिम् उपस्तृणेः बल्बाजमधिजन्म भरत्रोपविश्य सुप्रा इममग्निम् सपर्यतो आरोह चर्मोपासेदाग्निमेष देवोऽहम् त्रिलक्ष्याम् सुवा इह प्रजाञ्जनयपत्ये अस्मै सु ज्येष्ठो भगवत्पुत्रस्त एषः तिष्ठन्ताम् मातुरस्य उपस्थान्नालोपा स्वाङ्गल्युपासे दे मम अग्निम् त्वम् पत्ने प्रदे भूषयः देवान् स्वाङ्गले प्रदलानि गृहाणाम् द्विषयभावत्ये श्वचोराय शम्भोः शोनाश्व प्रग्रहान्वे शयमान् शोनाभावश्वचोरेभ्यः स्वनापत्ये गृहे ो नापृष्टायेषाम् भव सुमङ्गलेरियम् मधोरिमाम् समेतपश्यत सौभाग्यमस्ये दत्त्वा दौर्भाग्यैर्विपलेतन या गुरुहार्वायुवकयो याश्चे अदारतेरपि वर्धोन्वा आस्ये सम् दत्ताथास्तम् विपलेतन ृक्मप्रस्तारणम् भक्यम् विश्वा रूपाणि बिभ्रातम् आरोहत्सूर्या सावित्रे बृहते सौभागायकम् आरोहतल्पम् सुमनस्य मानेह प्रजाञ्जलयपत्ये अस्मेवा सुबुधा बुद्ध्यमाना ज्योतिरग्नावृषसप्रदेजागरासि देवाग्रेऽन्यापद्यन्तपत्ने न्तस्थनोभिः सूर्ये वा नादिविश्वरो वामहित्वा प्रजावा देवत्या सम्भावेह उत्तिष्ठेतो विश्वावसोनमासे नामहेत्वा जामिनित्यभितृजलन्यष्टान्तदे भागो जनुषादस्य विद्धे अक्षरसः सधामादम् वदन्त्यह विर्धानामन्तरा सूर्यम् च स्ते जनित्रमभितापरे नमस्ते गन्धर्वभर्तुना शृणोमि नमो गन्धर्वस्य नमासे नमो भामाय चक्षुषावसो ब्रह्म नासे नमोऽभिजायाक्षरसः परेः राया वयम् सुमया सस्यामोदितो गन्धर्वमागे वृदाम अघन् सदेवतारमम् सहस्तमगन्मयत्र प्रतिरन्त आयोः सम्वेतरावृत्तेय सुयसाम् माता पिता सर्वेतर शोभबाधः वर्याय वयोशामुहयीनाम् प्रजाम् कृन् मातामिहपुष्यतम् नयम् ताम् पोषन् शिवदा मामेरायस्त्वस्याम् बेजम् मनश्या ूरोशदे विश्वयादि यस्या मुषङ्गप्राहरे माशेपाः आरोहो लोपाहस्व हृदस्त्वम्बरेश्वरस्वजायाम् सोमनस्य मानः प्रजाम् कण्राधामिहमोदयमानो दीर्घम् वामायुः सविता केणोत् ेमम् सन्ना भवद्भिपदेशम् चतुष्पदेैर्दत्तम् मनो नासाकमेतद्बाधोऽयम् वासो बद्धश्च वस्त्रम् यो ब्रह्मणेति किदुचेतता दशयक्षाम् विकल्पानिहन्ति यन्मे दत्तो ब्रह्म भागम् बाधो योर्बाधोऽयं वासो बद्धश्च वस्त्रम् युवम् ब्रह्मणे नु मन्यमानो बृहस्तते साकमिन्दश्चेरधिबुध्यमानो हसामुदो महासामोदयमानौ सुखोऽसु पुत्रोऽसु गृहौ च राजो जीवावृषसोऽपि भातिवसानभिः सुवासा दत्त्वे वा मोक्ष्यविश्वस्मादेन सत्परि शुम्भा पृथिवी मन्दे सुम् ने महे वृते आपः सप्तसुस्तवे स्थानोहामम् कन्तुम् हा सः सूर्यायै देवेभ्यः मित्रायवलोनाय च एको तस्य नमः चेदभिक्षिणः पुरा यत्रुभ्यः आदृताः सन्धाः सन्ध्यम् अघवाः पुरोपसंनिस्कर्ता विक्रोतम् पुनाः अपास्तमामुच्छतनीलम् विषङ्गामुतलोहे दह्यते निर्दहनीया प्रेषातक्या स्थाना ताम् स्थानामध्यासाजामि रागाजे कृत्यागोपवास ने यावन्तो राज्ञोऽवलोडस्य वाशाः निरुद्धयोया समृद्धयोया अस्मिन्तास्थानावधे साधयामि यामेः प्रियतमातनोस्थामेऽपि भाय वास सः तस्याग्रे त्वम्बनस्पदे वयम् प्रेषाम ते दे अन्तायाव देशो यवोता भो ये चन्ता वः पासो यत्पत्नेऽभिरुदन्तश्चानमुपस्पुशात् उशतेः कन्यला इमा केतृलोकात्पते यमेः अदेक्षाम सृक्षत प्रवेष्टै यत्ते नेमान् संसृजामसे बृहस्पतिनावा दृष्ठान् विश्वे देवा आधारयन् तेजोगोष प्रवेष्टै यत्ते बृहस्पदिना वा दृष्टाम् विश्वे देवाधारयन् यशोवाशप्रवेष्टै यत्ते नेमान् संसृजामदे बृहस्पदिना वा सृष्ठाम् रसावाचप्रविष्टायश्च नेमाम् संसृजामते यदेमे केशिनो च समनर्पिशो नोदेन घण्डान्ताघम् अग्ने स्थादस्थादेन जत्सविता च प्रवञ्चता यदेयम् दोहिता तपविकेशोहद्गृहे नोदेन गण्वत्या आघम् अग्न्यस्थादस्थानेन सत्सपिता च प्रमुताम् यज्जामयो यज्ञो वदयो गृहे ते समनप्तिषो रोदेन कृण्वते रघ अग्न्यस्थादस्थानेन सत्सपिता च प्रमुताम् यत्तेः प्रजायाम् पशुषु यद्वा गृहेषु अग्न्यस्तादस्तादेन दत्सविता च प्रमुञ्चता इयन्नार्युपब्रो सैपोल्यान्यावपन्दिका येधायोरस्तदयपतिर्जेवादिशरदः शतम् इहे माविन्द्रन्नो ददकवाके पदम् भवति स्वस्तकौ विश्वमायुर्व्यस्मृता यदा सन्ध्यामोपधाने यद्वोपवासाने कृताम् विवाहे कृत्यास्नाने तान् विदध्मसे यद्वस्ततै यद्धबालम् चाहे वाहदौतयत् तत्सम् फलश्चाकम् बले वृद्महे दुरितम् वयम् सम्भरे मलम् साधयित्ताकम् भले दुरितम् वयम् ोमयज्ञया शुद्धा प्रणहायोऽम् चितारिषत् कृत्रिमकङ्कादशतदन्य एषः अपास्याख्ये शम्मनमपाशेरशल्यम् लिखात् अङ्गादङ्गाद्वयमश्चापायक्ष्मन्नि दध्मसे म्माप्रापृथिवीम् मोददेवायुन्द्रह्मा प्रापदुर्वा आन्तरिक्षम् अपो मा प्रापन्मलमेतदग्नेयपम् मा प्रापत् त्रि त्रयोश्च सर्वान् सन्ता लक्ष्यामिपयसा पृथिव्याः सन्ता लक्ष्यामिपयसौषाधीना सन्ता लक्ष्यामि प्रतयाधेन सा सन्नद्धासनु हेमाचलेमम् अमोऽहमस्मि सा त्वम् सा माहमस्म्यक्म् जौरहम् पृथिवी तादिहसम्भाव प्रजामाजा नयावहे जनयन्ते नावग्रावः पुत्रियन्ते सुदानावह्रासु सजैव धनुषा इमम् वा हसुमागामन् ते अस्यैवध्ये सम्पत्ये प्रदा गच्छमागच्छन्तो एकम् पूर्वाचन्नश नायमाना प्रजामस्ये द्रवेणम् जय हत्वा ताम् गा हन्तग तस्यानुपन्थाम् विराडियम् स्वप्रजात्यजेहीन् दीर्घायुक्ताय सतशारदाय गृहान् गच्छ गृहपत्नी सा ओ oh.